श्रीमहानारायणोपनिषत् श्रीगृभ्यो नमः हरिः ॐ सहना भवतु सहनो भुनक्तु सहवीर्यं करवावहै तेजस्विनावधितमस्तु माविद्व्यसावहै ए ॐ शान्ते शान्ते शान्तिः हरिः ओ प्रजापतिर्प्रार्थनामन्त्रः प्रजापतेन त्वदेतान्यो विश्वाजातानि परिताबभूवन् यत्कामासे जुहुमस्तन्नो अस्तु वयज्ञं श्यामा पतयो रयीणाम् स्वस्थि बिशस्पति मृधो वसी वृषेन्द्र पूरा एत ना अभयंकर्र्यंबकुगंधि पुष्टिवर्धन उर्वाक बंधना मृतोर्मुखी यमृता आत् ये ते सहस्रयुत पाशा मृत मृत्यावी तान् यज्ञस्य मायया सर्वानमयजामही मृत्यभे स्वाहा भृत्यभे स्वाहा आं देवकृतस्यै न सोभयजनमसि स्वाहा आं मनुष्यकृतस्यै न सोऽयव जनमसि स्वाहा आं पितृकृतस्यै न आत्मकृतस्यैन सोवयजनमसि स्वाहा आम् अन्नकृतस्यैन सोवयजनमसि स्वाहा अस्मा कृतस्यैन सोवयजनमसि स्वाहा आं यद्यवाच नक्तं चैनश्च कृम तस्या वयजनमसि स्वाहा आं यस्वपन्तश्च जागृतस्यैनश्च कृम तस्या वयजनमसि स्वाहा यस्तु सुप्तश्च जागृतश्चैनश्च कृम तस्या वयजनमसि स्वाहा यद्विद्वाग्संस्थ्यं चाविद्वाघंसश्चैनश्च कृम तस्या वयजनमसि स्वाहा एनस येन सो वयजनमसि स्वाहा यद्वो देवाश्च कृमजिह्वां जिह्वजा गुरुमनसो वा प्रजोतिदेवहेदनम् अरावायो नोऽभिदुच्छुनायते तस्मिन् तदेनो वसवो निधेतन कामो कार्षी नमो नमः कामो कार्षीत्काम करोति नाहं करोमि काम कर्ता नाहं कर्ता कामकारयिता नाहं कारयिता एत ते कामकामाय स्वाहा मन्युरकार्सिन् मन्युरकारसि एन् न नमः मन्युरकारसिन्मन्युः करोति नाहं करोमि मन्यो कर्ता नाहं कर्ता मन्यो कारयिता नाहम् कारयिता एष ते मन्यो मन्यवे स्वाहा लिलां जुहोवि सरसगां सागं सपृष्टान् सा गन्धार मम चित्ते रमन्तु स्वाहा गावो हिरण्यं धनमन्नपानगं सर्वै सागश्रियै स्वाहा श्रियं च लक्ष्मीं च पुष्टिं च कीर्तिं ब्रह्मण्यं बहुपुत्रतां श्रद्धा भेदे प्रजा सन्ददातु स्वाहा तिलाकृष्णस्तिला श्वेतास्तिला सौम्या वसानुगाः तिला पुनन्तु मे पापं यत्किञ्चिन् दुरितं मयि स्वाहा चोरयस्यान्नं नवश्राद्धं ब्रह्महा गोष्ठेयगं शुरापानं पूर्णहत्यातिलासान्तिगं तमयन्तु स्वाहा त्रिश्च लक्ष्मीश्च पुष्टेश्च कीर्ति चाळुण्यतां ब्रह्मण्यं बहुपुत्रतां श्रद्धा मेदे प्रज्ञातिजातवेदस्कन्ददातु स्वाहा प्राणापानप्यानो दानसमाना मे शुध्यन्तां ज्योतिरहम् विरजापि पाप्मा भूयासगं स्वाहा आं वाङ्मनश्चक्षुशोत्रज्जिह्वाघ्रालरेतो भद्याकृतिसंकल्पा मे शुद्ध्यतां ज्योतिरहं विरजापि पाप्मा भूयासगं स्वाहा आं त्वचरणमागंसुरिजिरिभेदो मज्जास्नायोस्त्रिरिभे शुध्यन्तां ज्योतिरहं विरजापि पाप्मा भूयासगं स्वाहाद पशपृष्ठोरदरगंघ स्नोपस्थ पोमे शुभ्यंता ज्योतिर्हम दि पाप्मा भूयास ग स्वाहा आम उत्तिष्टपुरहरितिंगलोिताक्षी देपयिता दे मे शु्यंता ज्योतिर्हम दजा विपा भूयास गम पृथ्वीव्यापस्तेजो भाजुराकाशा मे शु्यता ज्योतिरहं विरजा पाप्माूयासम स्वाहा आम शब्दस्परसूपरसगंधा मे शु्यंताम ज्योतिरहं बिजायासम स्वाहा आम मनोवाक्कायकर्मा मे शु्यता ज्योतिरहं विरजापि पाप्मा भूयासगं स्वाहा आम् अव्यक्तभावैरहंकारैर्ज्योतिरहं विरजापि पाप्मा भूयासगं स्वाहा आम् आत्मा मे स्वाहा अन्तरात्मा मे सृज्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासगं स्वाहा आ परमात्मा मे सृज्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास गं स्वाहा आ च्युदे स्वाहा आ च्युत्पिपाशाय स्वाहा आ विवत्यै स्वाहा क्वसोत्काय स्वाहा आं श्रुत्पिपासामलं ज्येष्ठामलक्ष्मी नासियं नाशियाम्यहम् अभूतिं समृद्धिं च सर्वा निर्गुणग्मे पाप्मानग्मं स्वाहा अन्नमय प्राणमय मनोमय विज्ञानमयमानन्दमयमात्मा मे शुद्ध्यन्तां ज्योतिरहं गिरजाभि पाप्मा भूयासगं स्वाहा आम् अग्नये स्वाहा आस्लेभ्यो देवेभ्यः स्वाहा आ ध्रुवाय स्वाहा आ स्वाहा आच्युतचितये स्वाहा आम् अग्नये स्वाहा धर्माय स्वाहा आधर्माय स्वाहा आभ्य स्वाहा ओषधि वनस्पतेभ्यः स्वाहा आम् रक्थो स्वाहा आम् गृह्याभ्य स्वाहा आम् स्वाहा आम् स्वाहा सर्वभूतेभ्यः स्वाहा कामाय स्वाहा आम् स्वाहा यदे यति जगति यच्चतेष्ठति नाम्नो भागोऽयं नाम्ने स्वाहा आम् पृथिभ्ये स्वाहा आम् अन्तरिक्षाय स्वाहा आ दिवे स्वाहा आ सूर्याय स्वाहा चन्द्रमसे स्वाहा आम् स्वाहा इन्द्राय स्वाहा बृहस्पतये स्वाहा प्रजापतये स्वाहा ब्रह्मणे स्वाहा प्रधापत्रेभ्य स्वाहा नमो रुद्राय पशुपतये स्वाहा देवेभ्य स्वाहा आ पितृभ्य संसधास्तु भूतेभ्योन्नमः ननुष्येभ्यो हन्ता प्रजापतये स्वाहा आ परमेष्टिने स्वाहा यथा कूपस्सतधारस्सहस्रधारो अक्षितः देवा मे अस्तु धान्यकं सहस्रधारमक्षितं धनधान्यै स्वाहा आ ये भूता प्रचलन्तेति वा नक्तं बलिमिक्षन्तो वितुदस्य प्रेष्या आह तेभ्यो बलिं पुष्टिकामो हरामि नयि पुष्टिं पुष्टिपतिदधाति स्वाहा ॐ तद्ब्रह्मा ओं तद्वायुः ओं तदात्मा ओ तत्सत्यम् ओं तत्सर्वम् ओं तत्पुरो नमः अन्तश्चरत् भूतेषु गोहायां विश्वमूर्तिषु त्वं यज्ञस्त्वं वषट्कार् त्वमिन्द्रस्त्वकं रुद्र त्वं विष्णुस्त्वं ब्रह्म त्वं त्वं तदाप आपो ज्योतिरसोऽमृतं ब्रह्मभरुभुवस्वरो श्रद्धया श्रद्धाया आं प्राणे मिनिष्टोऽमृतं ज्योमि श्रद्धायामपाने विनेष्टुं निविष्टो मृतं जुहोमि श्रद्धया आं जाने निवेष्टो मृतं जुहोमि श्रद्धया मुदाने निवेष्टोमृतं जुहोमि श्रद्धया वं समाने निवेष्टोमृतं जुहोमि ब्रह्मणिम् आत्मामृतत्वाय अमृतोपस्तरणमसि श्रद्धया pues pues <tut> <tut> <tut> आ प्राणेन भेष्टोमृतं जुहोमि शिवो मां विशापदाहाय प्राणाय स्वाहा आ श्रद्धायामपानेन भेष्टोमृतं जुहोमि शिवो मां विशापप्रदायाय अपानाय स्वाहा आ श्रद्धया आ ध्यानेन भेष्टोमृतं जुहोमि शिवो मां विषाप्रदाय यानाय स्वाहा आं श्रद्धयामुदाने निवेष्टो मृतं जोमि शिवो मां विषाप्रदास्य उदानाय स्वाहा आं श्रद्धया वं समाने विनिवेष्टोऽमृतं जोमि शिवो मां विषाप्रदाय समानाय स्वाहा आम् ब्रह्मणिम् आत्मा मृतं त्वया त्वाय अमृतापिधानामसि श्रद्धया आं प्राणे निवेश्यामृतगं हुतं प्राणमन्येनाप्यायस्व श्रद्धयाम् अपाने निवेश्यामृतगं श्रद्धया आं याने निवेश्यामृतगं मुतं यानमन्येनाप्यायस्व श्रद्धयामुदाने निवेश्यामृतगं हृतम् उदानमन्येनाप्यायस्व श्रद्धायामं समाने निवेश्यामृतगं मुतं समानमन्येनाप्यायस्व अङ्गुष्ठमात्रपुरुषोङ्गुष्ठं च समाश्रितः एष सर्वस्य जगतः प्रभूपियाति प्रीयाति प्रीणाति विभुं विश्वभू वाङ् आसनं नशो प्राणः अक्षोश्चक्षुः कर्णयोः श्रोत्रम् बाहुवो बलम् उर्वो रोजः अरिष्ठा विश्वान्यङ्गाली तनु तनुवामे सह नमस्ते अस्तु मामाहिवंसी वयस्पर्णा उपसेदुरिन्द्रं प्रिय मेधा ऋषयो नाधमाला अपध्वान्तमो ऊर्णी गुर्धि चक्षु मुमुग्धस्य निधयेव बद्धान् प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तक तेनान्नेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि त्वमग्नेऽद्युभिस्त्वमाशु सूक्ष्णी त्वमध्यस्त्वमस्मन् परि त्वं वने एभ्य त्वं नृणां नृपते जायसे शुचिः शिवेन मे संतिष्ठस्व शोणेन मे संतिष्ठस्व चूतेन मे संतिष्ठस्व ब्रह्मभर्ते सुष्ठस्व यज्ञस्य रथि मनु सन्तिष्ठस्वोप ते यज्ञ नम उप ते नमः उप नमः सत्यं परं परन्तरगं शत्यगं शत्येन न शुवर्गाल्लोकाच्च मन्ते कदाचन सातगं सत्यं तस्मा सत्ये रमन्ते तप यद्धि परं तपस्तद्युर्धरसं तद्युराधरसं तस्मात्तपसी रमन्ते दम इति नियन्तं ब्रह्मचारिणस्तस्माद्दमे रमन्ते यरण्ये मुनयस्तस्मात् स मे रमन्ते दानमिति सर्वाणि भूतानि रसगं सन्ति दानान्नाति दुश्चरं तस्मात् दाने रमन्ते धर्म इति धर्मेण सर्वमिदं परिगृहितं धर्मान्नाति दुष्करम् तस्माद्धर्मे रमन्ते प्रजन इति भूयागंसस्तस्माद् भूयिष्ठा प्रजायन्ते तस्माद्भूयिष्ठाः प्रजनने रमन्ते जग् इत्याह तस्मादग्नै आधातव्या अग्निहोत्र मृत्याः तस्मादग्निहोत्रे रमन्ते यज्ञ इति यज्ञो हि देवा तस्मा आ यज्ञे रमन्ते मनस निचिविद्वागसं तस्मा आ विद्वागस एव मानसे रमन्ते न्यास इति ब्रह्मा ब्रह्मा पर परो ब्रह्मा तानि वा एतान्यवराळि परागंसि न्यास एवात्यरेचयद्य एवं देदे एत्युपनिषत् प्रजापत्यो हारुणी सुपरिणेय प्रजापतिपितरमुपसांथसारकिं भगवन्त परमं वन्दतीति तस्मै प्रोवाच सत्येन वायुरावाति सत्येनादित्यो रोचते दिवि सत्यं वाचः प्रतिष्ठा सत्ये सर्वं प्रतिष्ठितं तस्मा आ सत्यं परमं वदन्ति तपसा देवा देवतामग्र आजन तपसरस यस्सुवरन्वं विन्दत तपसा सपत्नान् प्रणुधा मा रातिस्तपसि सर्वं प्रतिष्ठितं तस्मात्तपः परमं वदन्ति दमेन दान्ता किल्वन्वन्ति दमेन ब्रह्मचारिणः सुवरं गच्छन् तमो भूताना आँं दुराधरसं सर्वं प्रतिष्ठितं तस्माद्दमः परमं वदन्ति समेन शान्ता शिवमाचरन्ति समेन नाकं मुनियोन्वं विन्दच्छमो भूताना आं दुराधर्षच्छ मे सर्वं प्रतिष्ठितं तस्माच्छम परमं वदन्ति दानं यज्ञानां वरुच्छं दक्षिणालोके लातारगं सर्वभूतान्युपजीवन्ते लाले नारातीरपालुदन्त लालेन निसन्तो निद्राभमन्ति दाले धर्मं प्रतिष्ठितं तस्मा आद्दानं परमं वदन्ति धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मेष्टं प्रजा उपसर्पन्ति धर्मेण पापं मनु मपनूदन्ति धर्मे सर्वं प्रतिष्ठितं तस्मा आ धर्मं परमं वदन्ति प्रजननं वै प्रतिष्ठा लोके साधु प्रजाया आ तन्तु तन्बालपतृणामनुलो अनिलो भवन्ति तदेव अनिलं तस्मा प्रजननं परमं वदन्त्यग्नयो वै त्रयीविद्या देवा संतर देवायानपन्थागार्हपत्य ऋक्प्रतवीरसन्तरमन्वाहार्यपचनं यजुरन्त्यरेक्षं वामदेव्यमहावनी यस्मासु वर्गो लोको बृहत्तस्मादग्निन्परमं वदन्त्यग्निहोत्रगं शायप्रातर्गृहाणां निष्कृते स्वेष्टगं सुहृतं जग्रक्रतूनां प्रायणगम् सुवर्गस्य लोकस्य ज्योतिस्तस्मादग्निोत्रं परमं वदन्ति यज्ञ इति यज्ञेन हि देवादिवङ्गता यज्ञेना सुरानपानूदन्त यज्ञेन द्विषन्तो मेत्रा भवन्ति यज्ञे सर्वं प्रतिष्ठितं तस्मात् यज्ञं परमं वदन्ति मानसं वै प्रजापत्यं पवित्रं मानसेन मनसा साधु पश्यति मनसार्चय प्रजा असिजन्त मानसे सर्वं प्रतिष्ठितं तस्मान् मानसं परमं वदन्ति ल्यास इत्याहुर्मनीषिणे एम् ब्रह्माडं ब्रह्माभिश्व कृतमस्वयं वो प्रजापति इति संवत्सरो सा वादित्यो य एष आदित्ये पुरुषस्वहं परमेष्टि ब्रह्मात्मा याभिरादित्यस्तपतिरश्मेभिस्ताभिः पर्जन्यो वर्षति पर्जन्येन औषधि वनस्पतया प्रजायन्त ओषधी वनस्पतिभ्यैरन्नं भवत्यन्नेन प्राणा प्राणैर्वलं बलेन तपस्तपसा श्रद्धा श्रद्धया मेधा मेधया मनिषा मनिषया मनो मनसा शान्तिशान्त्या चित्तं चित्तेन स्मृतग्म् मृत्या स्मारकं स्मरणेन विज्ञानं विज्ञानेनात्मानं वेदयति तस्मादन्नं दग्धः सर्वा आ लेतानि ददात्यन्ना आणा भवन्ते भूताना विज्ञानादानन्दो ब्रह्मयोने स्म वा एष पुरुष पञ्चधा पञ्चात्मा येन सर्वमिदं प्रोतं पृथिवी च दोश्च दृशश्चावान्तरदिशाश्च वै स वै सर्वमिदं जगत्सत्सम्भूतगं स भव्यं जिज्ञासक्लिप्तसं नृतजाजयिष्ठा श्रद्धा सत्यो महस्वान्तपसो परिष्टाद् ध्यात्वा तमेवं मनसा हृदा च भूयो न भृत्योमुपमुपमायाहि विद्वान् तस्मान्या चमेषां तपसा मतिरिक्तमाहु सुरण्ड्यो विभुरसि प्राणे त्वमसि सन्धाता ब्रह्मन् त्वमसि त्वमस्य अग्निरसि वरुचोदा त्वमसि सूर्यस्य धुम्नोदा त्वमसि चन्द्रमस उपायां गृहीतोऽसि ब्रह्मणे ए त्वां महस ॐमित्यात्मानं युञ्जुजितै तद्वै महोपनिषदं देवानां गुञ्जं य एवं वेद ब्रह्मणो महिमान आप्नोति तस्मा महिमाला ब्रह्मणो महिमाना मृत्युपनिषत् तस्यैवं विदुषो यज्ञस्यात्मा यजमानश्रद्धा ज्या पत्नी शरीरमित्युमुरो वेदीर्लोमानि बर्हसि यूपह काम योपः कामाज्यं मन्युः पशुस्तपोऽग्नितमस्य समाहिता दक्षिणा वाग्दोता आप्नाड उद्गातां चक्षुरध्वर्यो मनो ब्रह्मा श्रोत्रमग्ने द्यावद्भीयते सा दीक्षा यदस्नाति यद्धे यत्पिबति तदस्य सोमपानं यद्रमते तदुपसदौ यस्य रत्युपं विसन्त्यु तिष्ठते सप्रवगो यन्मुखं तदाह्वनीयो या प्राहृती राहुति यदस्य विज्ञानं तज्जुहोति यः सायं प्राचरत्ति तस्समिधं यत्प्राचरमध्यन्दिनकं सायं च तानि सवर्णानि वे अहोरात्रेतेन्दरसपूर्णमासौ ये एर्धमासाष्टमासा आस्त्यते चतुर्मास्यानि यतवस्ते पशुबन्धाय समत्संतराश्च परिसराश्च ते हर्गना सर्ववेतसंवा एतसत्रं जन्मरणं तदवभृत एतद्वै जरामर्यमग्निहोत्रकं सत्रं य एवं विद्वान् प्रमीयन्ते देवानामेव महिमानं गत्वा दित्यस्य सायुज्यं गच्छ तथं ज्यो दक्षिणे प्रमीयते पितॄणामेव महिमानं गत्वा चन्द्रमस सायुज्यज्ञं तलोकथामण्डोत्येतौ वै सो ऊर्जा चन्द्रमसो महिमानौ ॐ ब्रह्मणो विद्वान् अविजयति तस्माद् ब्रह्मणो महिमानमाप्नोति तस्माद्ब्रह्मणो महिमानम् ॐ सहनावगतु सह नौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधितमस्तु मा विद्विषावहै हि शान्ति शान्तिः हरिः ॐ तस्य श्रीरामकृष्णार्पणमस्तु